भगवद्गीता चाप्टर् फोर्टीन् वर्षे अथ चतुर्दशोऽध्यायः श्रीभगवानुवाच परम्भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् यस्या स्वामुनयः सर्वे परां सिद्धिमिदो गताः ितम् ज्ञानमुपाश्रित्य मम साधर्म्यमागताः सर्वेऽपि नोवजायन्ते प्रलये न व्यजन्ति च मम यो निर्महद् ब्रह्म तस्मिन् गर्भम् ददान्यहम् सम्भवत् सर्वभूतानाम् भवति भारत सर्वयोनिसुसौन्देयमूर्तयः सम्भवन्ति याः तासाम् ब्रह्म महद्योनिरसम् बीजप्रदर्पिता स त्वम् रजस्तम यदि गुणात् प्रभृति सम्भवाः निबध्नन्ति महाभागो देहे देहि नमव्ययम् तत्र सत्त्वं निर्मलत्वा प्रकाशगमनामयम् सुखसङ्गेन भद्रादिज्ञानसङ्गेन चानक प्रचोदात्मजं विद्धि कृष्णा सङ्गसमुद्भवम् सन्निभद्रादिकौन्देयकर्मसङ्गेन देहिनम् समस्त विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्य निद्राभिस्तन्निपध्नादिभारत सत्त्वं सुयेत् सञ्चयति रजः कर्मणि भारत ज्ञानमावृत्य दुतमः प्रमादे सञ्चयत्युत रजस्तमश्चाभिभूय सत्त्वं भवति भारत रजस्त त्वं तमश्चैव तमस्सत्वं रजस्तथा भगवद्गीता चाप्तर् <odh> 11 वर्ष सेवेन्टि ट्वेन्टि सर्वत्वारेषु देकेस्मिन् प्रकाशमुपजायते ज्ञानं यदा तदा विद्याद्विवृद्धं तत्त्वनित्युत लोभप्रवृत्तिराजम्भः कर्म नाम शमस्पृता रजस्येतानि वि वृद्धे भरदर्षः अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च समस्येतानि जायन् यदा तत् स्वे प्रवृद्धे तु प्रलयं यादिदे शब्दोत्तमविधं लोकानमलान् प्रतिपद्यते रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते तदा प्रलीनस्तमसि मूढयोनिषु जायते कर्मणः सुकृतस्य कुत्सात्विकं निर्मलं फलम् रजसस्तु फलं दुःखमज्ञानं तमसत् फलम् सत्वात् सञ्जाय दे ज्ञानं रजसो लोभयेव च तमसो भवदो ज्ञानमेव ऊर्ध्वं गच्छन्ति सत्वस्ता मध्ये तिष्ठन्ति राजसाः खन्य गुणवृत्तिस्था अधो गच्छन्ति तामसाः नान्यं गुणेभ्यः कर्तारम् यथा द्रष्टानुपश्यति गुणेभ्यश्च परं वेत्ति मद्भावं शोधि गच्छति गुणानेदान्यत्य त्रीन् देहि देह जन्म मृत्युजरा दुग्धैर्विमोक्तो मृदमष्णुदेव भगवद्गीता चाप्टर् 21 वर्षस् ट्वेण्टि वन् टु ट्वेण्टि सेवेन् अर्जुन उवाच ऐर्लिङ्गैस्त्री गुणानिदानदिदो भवति प्रभो किमाचार कथं चैदान्त्रीन् गुणानधिवर्तते श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोघमेव च पाण्डवा न द्वेष्टिसम्प्रवृत्तानि न निवृत्तानि काङ्क्षति उदासीनवदासीनो गुणैर्यो न गुणा वर्तन्त इत्येवयोवतिष्ठदिनेन्ददे समदुःखसुखः स्वस्थः समलोष्टाश्म काञ्चनः तुल्यप्रिया प्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः मानावमानयोस्तुल्यस्तुल्यो मित्रारिवक्षयोः सर्वारम्भपरित्यागी गुणादिदः स उच्यते मां च यो व्यभिचारेण भाक्रियोगेन सेवदे स गुणान् समितीत्यैदान् ब्रह्म भूयाय कल्पदे ब्रह्मणो हि प्रतिष्ठाः अमृतस्याव्ययस्य च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॐ तत्स यदि श्रीमद्भगवद्गीतासु चतुर्दशोऽध्यायः